हरिओं जय सीतामचंद्रभ्याम नम अथ श्रीमद्वामीकेण अयोध्या षडशीति तम सर्ग निषादराजेन गुहेन लक्ष्मण विलापयोर वर्णनम आच चक्षेत सद्भाव लक्ष्मणस्हात्मन भरतामे न गोचर है तम् जाग्रतम् गुणैर्युक्तम् वरचापेषु धारिणम् भ्रातृगुप्त्यर्थमत्यन्तम् अहम् लक्ष्मणमब्रुवन् इयम् तात सुखाशय्या त्वदर्थमुपकल्पित प्रत्याश्वसीः शेषास्याम् सुखम् राघवनन्दन उचितोऽयम् जनः सर्वो दुखा संखोचि धर्म से गुप्त जागरीशा वे रा भुव कशन मोत्सुको भूर्वीमेत अथ सत्यं तवागृत असादाशंसे लोकेऽस्मिन् सुमहर्य धर्मावाप्तिं च विपुलम् अर्थकामो च केवलौ सोऽहं प्रिय सुखम् रामम् शयानम् सहस्रेतया रक्षिष्यामि धनुष्पाणि सर्वैः स्वै ज्ञातिभितः न हि मेय विदितं वनेऽस्मिन् चरत सदा चतुरङ्गम् ह्यपि प्रसहेम वयम् युधि एवम् अस्माभियुक्तेन लक्ष्मणेन महात्मन अनुनीता वयम् सर्वे धर्मम् एवानुपश्यत कथम् दाशरथो भूमौ शयाने सहसीतया शक्या निद्रा मया लब्धुम् जीवितानि सुखानि वा यो न देवासुरै शक्य प्रसहितुम् युधि तन्पश्च तृणेषु सहसीतया महता तपसा लब्धो विविधैश्च परिश्रमे एकोदश रथस्य च पुत्र सदृशलक्षणः अस्मिन् प्रव्राजते राजा न चिरम् वर्तयिष्यति विधवा क्षिप्रम् एव भविष्यति विनद्य सुमहानादम् श्रमेणो परतात्रियः निर्घोषो विरतो नूनम् अद्य राजनिवेशने कौसल्या चैव तथैव जननीमम मम नाशन्ते यदि सर्वे जीवेयुह्यर्वरीम्यमाम् जीवेदपि च मे माता शत्रुघ्नस्यान्वीक्ष्य दुःखिता या हि कौसल्य वीरसुर्विनशिष्यति अतिक्रान्तम् मतेक्रांतं अनवाप्य मनोरथम् राजे रामं अनिक्षिप्य पिता मे विनशिष्यति सिद्धार्था पितरम् वृत्तम् तस्मिन् काले ह्युपस्थिते प्रेतकार्येषु सर्वेषु संस्कृष्यन्ति भूमिपम् रम्य चत्वर संस्थानाम् सुविभक्त महपथम् हर्म प्रासाद सम्पन्नाम् सर्वरत्न समाजोत्सवशालिनीम् सुखिता विचरिषन्ति राजधानीम् पितुर्मम अपि सत्यप्रतिन्येन सार्धम् कुशलिना निवृत्ते समयेहस्मिन् सुखिता प्रविशेमहि परिधे वयमानस्य तस्यैवं महात्मनः तिष्ठतो राजपुत्रस्य चर्वरी सात्यवर्तते प्रभाते विमले सूर्ये कारयित्वा जटा उभौ अस्मिन् भागीरथीतीरे सुखम् सन्तारितो मया जटाधरो तो द्रुमचीरवाससौ महावकुञ्जरयूथ कोमपमौ वरेषु धी चायपधारो परन्तपो क्षमाणो सह सीतया गतौ इत्यार्थे श्रीमद् रामायणे वाल्मीकि आदिकाव्ये अयोध्याखण्डे षडशीति तमः सर्गः